चमकखनम् अनुवाकं सवन् अगुं शुश्चागुं सुरगुं शुश्च मे मे चागुं सुरगुं शुश्च मे च मे मे च च मे रश्मि रश्मिर्मे च च मे रश्मिः मे रश्मि रश्मिर्मे मे रश्मिश्च च रश्मिर् मे मे रश्मिश्च रश्मिश्च चरश्मि रश्मिश्च मे मे चरश्मि रश्मिश्च मे च मे मे च च च मेदाभ्योदाभ्यो मे च च च च च च च च च च च च मेदाभ्यः मेदाभ्योदाभ्यो मे मेदाभ्यश्च चदाभ्यो मे मेदाभ्यश्च अदाभ्यश्च चादभ्योदाभ्यश्च मे मे चादभ्योदाभ्यश्च मे च मे मे च च च च अधिपदिश्च चाधिपदिरधिपदिश्च मे मे चाधिपदिरधिपदिश्च मे अधिपदिरित्यधिपदिः च मे मे च चम उपागुंशु रूपागुंशुर्मे च चम उपागुंशुः म उपागं शोरूपागं शोर्मे म उपागं शुश्चं शर्मे उपागंश्च उपागं शुश्च गं शुश्च मे मे चोपागं स्वरूपागं अगुंसुः च मे मे च च चमेन्दर्यामोन्दर्यामो मे च च च मेन्दर्यामः मेन्दर्यामोन्दर्यामो मे मेन्दर्यामश्च चान्दर्यामो ॐ दर्यामश्च अन्धर्याम इत्यन्तयामः च मे मे च ऐन्द्रवायव ऐन्द्रवायवो मे च च म ऐन्द्रवायव ऐन्द्र वायवो ऐन्द्रवायवश्च चैन्द्रवायवो मेम ऐन्द्रवायवश्च ऐन्द्रवायवश्च चैन्द्रवायव ऐन्द्रवायवश्च मे मे चैन्द्रवायव ऐन्द्रवायवश्च मे ऐन्द्रवायव इत्यन्द्रवायवः च मे मे मैत्रावरुणः मे मैत्रावरुणो मैत्रावरुणो मे वरुणश्च मे मे च मैत्रा वरुणो मैत्रा वरुणश्च मे मैत्र वरुण यदि मैत्रा वरुणः च मे मे च चम अश्विन आश्विनो मे च चम अश्विनः म अश्विन अश्विनो मे म अश्विनश्च चाश्विनो मे म अश्विनश्च अश्विनश्च चाश्विना अश्विनश्च मे मे चाश्विन अश्विनश्च मे च मे मे च मे प्रदिप्रस्थान प्रदिप्रस्थानो मे प्रदिप्रस्थानप्रदिप्रस्थानो मे मे प्रदिप्रस्थानश्च च प्रदिप्रस्थानो मे मे प्रदिप्रस्थानश्च च प्रदिप्रस्थानप्रदिप्रस्थानश्च मे मे च प्रदिप्रस्थानप्रदिप्रस्थानश्च मे प्रदिप्रस्थान इति प्रदिप्रस्थानः च मे मे च च मे शुक्रशुक्रो मे च च मे मे शुक्रशुक्रो शुक्रश्च शुक्रश्च शुक्रश्च च शुक्रशुक्रश्च मे च मे मन्धि मन्धि मे मे मन्धि मे मे मे मन्धि मे मे मन्धि च मन्धी च च मन्धि मन्दी मे मे च मन्धि च मे च मे आग्रयण आग्रयणो मे च आग्रयणः आग्रयण आग्रयणो मे मग्रयणश्च चाग्रयणो मे म वैश्वदेवो वैश्वदेवो मे च च वैश्वदेवः मे वैश्वदेवो वैश्वदेवो मे मे वैश्वदेवो मे मे वैश्वदेवश्च वैश्वदेवश्च वैश्वदेवो वैश्वदेवश्च मे च वैश्वदेवो वैश्वदेवश्च मे वैश्वदेव यदि वैश्व देवः च मे ध्रुवो ध्रुवो मे च ध्रुवः मे ध्रुवो ध्रुवो मे ध्रुवश्च च ध्रुवो ध्रुवश्च ध्रुवश्च च ध्रुवश्च मे मे ध्रुवश्च मे च मे मे छच मे वैश्वानरो वैश्वानरो मे च च मे वैश्वानरः मे वैश्वानरो वैश्वानरो मे मे वैश्वा नरश्च च नरो मे मे वैश्वानरश्च वैश्वानरश्च च वैश्वानरो वैश्वानरश्च मे मे ज वैश्वानरो वैश्वानरश्च मे च मे मे च रुदुग्रह ऋदुग्रह मे च ऋदुग्रफ मरुदुग्रहरुदुग्रह मे मृदुग्रहाश्च चर्तुग्रह मे मृदुग्रहाश्च ऋदुग्रहाश्च चर्तुर्ग्रहा ऋदुग्रहाश्च मे मे चर्तुग्रहा ऋदुग्रहाश्च मे ऋदुग्रहा मे मे च च मे तिग्राह्या अधिग्राह्य मे च च मे मेति ग्राह्या अधिग्राह्या मे मेति ग्राह्याश्च चाधिग्राह्या मे मेति ग्राह्याश्च अधिग्राह्याश्च चाधिग्राह्या अधिग्राह्याश्च मे मे चाधिग्राह्या अधिग्राह्याश्च मे अधिग्राह्या इत्यधिग्राह्याः च मे मे च च म ऐन्द्राग्न ऐन्द्राग्नो मे च च मैन्द्राग्नः म ऐन्द्राग्न ऐन्द्राग्नो मे म इन्द्राग्नश्च च इन्द्राग्नो मे मैन्द्राग्नश्च ऐन्द्राग्नश्च च ऐन्द्राग्नश्च मे मे च इन्द्राग्न ऐन्द्राग्नश्च मे ऐन्द्राग्न इत्य ऐन्द्र अग्नः च वैश्वदेवो वैश्वदेवो मे च वैश्वदेवः मे वैश्वदेवो वैश्वदेवो मे वैश्वदेवश्च च वैश्ववो मे वैश्वदेवश्च वैश्वदेवश्च च वैश्ववो वैश्वदेवश्च मे च वैश्वदेवो वैश्वदेवश्च मे वैश्वदेव यदि वैश्वदेवः च मे मे च च च मे मरुत्वदीया मरुत्वदीया मे च च मे मरुत्वदीया मरुत्वदीया मे मे मरुत्वदीयाश्च मरुत्वदीयाश्च मरुत्वदीयाश्च च मरुत्वदीया मरुत्वदीयाश्च मे मे च मरुत्वदीया मरुत्वदीयाश्च मे च मे मे च च मे माघेन्द्रो माकेन्द्रो मे च च च च च च च च च च च माहेन्द्रः मे माघेन्द्रो माकेन्द्रो मे मे च महेन्द्रो मे माघेन्द्रश्च माघेन्द्रश्च च माघेन्द्रो माघेन्द्रश्च मे मे मे माघेन्द्र इति माहा इन्द्रः च आदित्य आदित्यो मे च आदित्यः मा आदित्य आदित्यो मे म आदित्यश्च चादित्यो मे मादित्यश्च आदित्यश्च चादित्य आदित्यश्च मे मे आदित्यश्च मे च मे मे च च सावित्रह मे सावित्रसवित्रोमे मे सवित्रश्च च सावित्रो मे मे सावित्रश्च सावित्रश्च च सावित्र सावित्रश्च मे मे च सावित्र सावित्रश्च मे च मे मे च च मे सारस्वत सारस्वतो मे च जे मे सारस्वत सारस्वतो मे मे सारस्वतश्च च सारस्वतो मे मे सारस्वतश्च सारस्वतश्च च सारस्वतः सारस्वतश्च मे मे च सारस्वतं सारस्वतश्च मे च मे च मे पौष्ण पौष्णो च च मे पौष्णः मे पौष्ण पौष्णो मे मे पौष्णश्च च पौष्णो मे मे पौष्णश्च पौष्णश्च च पौष्णः पौष्णश्च मे मे च पौष्ण पौष्णश्च मे च मे मे च च पात्नी वदः पात्नी मे च च पात्नी वदः मे पात्नी वद पात्नी वदो मे मे पात्नी वदश्च च पात्नी वदो मे म पात्नी वदश्च पात्नी वदश्च च पात्नी वद पात्नी वदश्च मे मे च पात्नी वद पात्नी वदश्च मे पात्नी वद पात्नी वदः च मे मे च च मे मे च मे हरियो च हरियो जनो मे च हरियो जनो हरियो जनश्च मे मे च हरियो जनो हरियो जनश्च मे हरियो जन इति हरियोजनः च मे मे च च मे म इति मे